मवाप्य विनोदयामि कदा मनो मदने न तनोदयामि कदा नपकारितयाभियाति हि वाद्ययो मम shiva shiva tapakari saya pati shiva jaya mama te nahi shiva shiva sant samaye saduna vi rahe nahi shiva santa sabaye भिन्नतनु विभे नाम कथं कर् दामि भजामि कं मदनाकृते पिता वजिरानति मो अनुगजाय शिववसन्त समये दामगं प्रतिपद्य सत्वरं अतरं य विरासिनी दामघं प्रतिपद्य सत् आतरं न विरासिनी ि कदारतो हास्य सौरनिवासिनीयामि कदारतो हारास्य सौरनिवासिनि शिव शिव शन्त समये